श्रीमन महाभारतम् आदिपर्वणि सम्भवपर्वणि अस्त्रदर्शने चतुस्त्रिंशदधिकशततमो अध्यायः वैशम्पायन उवाच कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे पक्षपातकृतस्नेहः सद्विधेवा भवज्जनः हि वीर कुरुराजेति हि भीम इति जल्पतां पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ततः क्षुब्धार्णवनिभं रङ्गमालोक्यबुद्धिमान् भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् द्रोण उवाच वारयैतौ महावीर्यौ कृतयोग्यावुभावपि मा भद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः वैशंपायन उवाच तत उत्थाय वेगेन अश्वत्थामान्यवारयत् गुरो राज्ञा भीम इति गांधारे गुरुशासनम् अलं योग्यकृतं वेगमलं साहसमित्युत ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् निवार्यवादित्रगणम् महामेघनिभस्वनम् यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः ऐन्द्रिरिन्द्रानुजसमः सपार्थो दृश्यतामिति